नमस्कारः नमो नमः आरम्भं कुर्मः अद्य अम्बिकापतिमहोदय भवान् आरम्भं करोति वा प्रार्थनया ओं सहना भवतु सहनौ भुनक्तु सः वीर्यङ्करभावहै तेजस्विनावतीतमस्तु मावित् विशावहै ॐ शान्तिशान्तिशान्तिः ॐ सरस्वती नमस्तुभ्यम् वरदे कामरूपिणि विद्यारम्भम् करिष्यामि सिद्धिर्भवति मे सदा गुरुब्रह्मा गुरुर्विष्णुः गुरुधेवो महेश्वरः गुरुःसाक्षात्परम् ब्रह्म तस्मै श्रीगुरवे नमः ॐ शान्तिः शान्तिशान्तिः हरिः शान्ति ओम् तत्सद् श्रीगुरुभ्यो नमः ओम। हरिः ओम् हरि ओम् नमस्कारः पुनः एकवारं सर्वेषां स्वागत नमो नमः जयन्ती भगिनी नमस्कारः नमस्कारः अस्तु उपसर्ग इति अस्माकं विषयः अस्ति तत्र वयं आरम्भं कृतवन्तः उपसर्गाः के इति उपसर्गाणां योजनेन कथं परिवर्तनं भवति इति तत्र विषयः तत्र संशयात्मा विनश्यति इति अस्माकं पाठस्य नाम अस्ति तत् आत्मा विनश्यति तत्र उपसर्गाणां विषये वरम् आरम्भं अधुना वयं किं कुर्मः नमस्कारः विना भगिनी नमो नमः नम, अधुना वयं किं कुर्मः तत्र संशयात्मा विनिष्यति विषये वयं दृष्टवन्तः तद्गतसप्ताहे तत् कथं श्लोकस्य अर्थं किं भवति इति तत् संशयात्मा इत्युक्ते तत्र संशयोत्पत्तेः कारणात् किं भवति सुखं न लभ्यते एवं सर्वं मया दृष्टवन्तः तत्र अधुना पुस्तकं प्रति गच्छामः तत् पुस्तकात् यत् अस्ति तस्य अध्ययनं कुर्मः अनन्तरं कथायाः तत्र पुनः एकवारं कथायाः पठनं कृत्वा कथायाः आधारेण संशयात्मा विनश्यति तत् कथम् उत्पद्यते तदेवं सर्वं तस्य चर्चापि वयं कुर्मः अधुना पाठं प्रति गच्छामः तत्र अस्ति एकम् अहं करोमि अत्र अस्ति अस्माकं पाठः अत्र ये जनाः न आगतवन्तः तत् पश्यन्तु अत्र संशयात्मा विनश्यति इति विषयः तत्र किं वर्तते तत्र संशयात्मा विनश्यति इति कथम् अस्ति तत् अपि वयं दृष्टवन्तः पुनः एकवारं तस्य अपि चर्चां वयं कुर्मः परन्तु तस्मात् प्राक् तत् उपसर्ग उपसर्गक्रियापदं च योजयित्वा लिखत तत् वयं पश्यामः पुस्तक, पुस्तके यत् अस्ति उपसर्गम् अनन्तरं तस्य क्रियापदः एवं सर्वम् अस्तु <laughs> भारतमहोदय भवान् आरम्भं करोति वा उपसर्गं क्रियापदं च योजयित्वा योज mm. उपसर्ग mm. उपसर्ग mm. mm. उपसर्ग लिखत उपसर्गः क्रियापदम् उपसर्गसहितम् उपसर्ग वि उपसर्गः वि क्रियापदं लिखति उपसर्गसहितं वि उपसर्ग प्रक्रियापदं पठति उपसर्गसहितं प्रपठति प्रपठति उपसर्ग अनु क्रियापदं गच्छति उपसर्गसहितम् अनुगच्छति उपसर्ग सम क्रियापदम् हरति उपसर्गसहितं सम्हरति उपसर्गः प्रक्रियापदं नमति उपसर्गसहितं प्रणमति उपसर्गः समक्रियापदम् ष्यति उपसर्गसहितं सम सम तुष्यति हा तत् भवति तत्र पश्यन्तु हा अत्र सम उपसर्ग तत तत् उपसर्ग व्याकरणदृष्ट्या तत <laughs> उपसर्ग, उपसर्ग अपि पदम् एव तस्य पदम् एव व्याकरणे तस्य पदम् एव नामकरणम् हा इत्युक्ते उपसर्गः पदम् एव अस्ति अधुना पदस्य अन्ते मकार आगच्छति चेत् किं भवति तस्य अनुस्वारे परिवर्तनं भवति हा पदान्तमकारस्य अनुस्वारे परिवर्तनम् अतः तत् किं भवति सन् अनुस्वार तुष्यति इति भवति अधुना स्थितिका लिखित्वा एकं लिखित्वा दर्शिष्यामि सन्धि सन्धिविषयकनियमाः अपि अन्तर्भूताः पश्यन्तु सम् अस्ति अनन्तरं सम् इति उपसर्ग अनन्तरमस्ति तुष्यति अधुना उपसर्गस्य अनुस्वारः भवति पदम् अस्ति अतः अनन्तरमस्ति सन् तुष्यति परन्तु अत्र तकार सकार तेन किं भवति तकार स्यकार यकार तकार तत् तुष्यति तुष्यति सन्तुष्यति हा अत्र वास्तविक तुष्टः अत्र एव तकारशकार सन्तुष्यति सन्तुष्टति इति रूपं निष्पद्यते परन्तु अत्र अहं मन्ये सन्तुष्यति इति न सन्तुष्टति इति भवेत् एकवारं परीक्षणं कृत्वा वदामि किमर्थम इति तत्र सन्तुष्यति इति नास्ति सन्तुषति तत्तुष्यति तत कथमागच्छति तत् एकवारं दृष्ट्वा वदामि अत्र वयं किमपि न चिन्तयामः यतो हि तत् अन्तिमतः तत्र स्तुत्वसन्धि भूत्वा सन्तुष्टति इति रूपं निष्पद्यति सन्तुष्यति सन्तुष्यति इति न कथं तत् एकवारं परीक्षणं कृत्वा वदामि अग्रिमे अग्रिमे यतस्य परि तत् कुर्मः तत् किञ्चित् तत्र सन्तुष्यति कथमागच्छति कोपि अत्र एवं दृश्यते इतोपि तत्र एकः इणधातुः अधि उपसर्गेण तत्र अपि वयं कृतवन्तः गतसप्ताहे तर् तर् अधीते तत् तदपि तत तत्रापि तत्र मम एकः सन्देहः वर्तते तत् इ अधिकसहितकथमिति अस्तु तत् परीक्षणं कृत्वा अग्रिमे वर्गे वदामि नो चेत् गणे स्थापयामि अस्तु भारतमहोदय yeah, yeah. तत्र सन्देहः वर्तते मम अपि अस्तु अस्तु चिन्ता मास्तु आमाम् Uh, uh, परि uh, उपसर्गः क्रियापदं त्यजति uh, उप उपसर्गसहितं uh, परित्यजति उपसर्गः आ क्रियापदं नयति उपसर्गसहितम् आनयति hmm. uh, उपसर्गः परि क्रियापदं हरति उपसर्गसहितं परिहरति परिहरति इति परिहरति परिहर परिहरति इति अस्तु पर्याप्तम् अत्र प्रनमति एतस्य प्रणमति कथं भवति तत् सर्वे जानन्ति खलु किमर्थं तत् प्रणमति इति भवति प्रकर्षेण सत्यं प्रकर्षेण नमति तत्तु परन्तु प्रनमति इति न दत्तं खलु प्रणमति इति किमर्थं तत् <laughs> रेफ अस्ति खलु तत् रेफ् अस्ति यतः वस्तुतः प्र इत्युक्ते प अधिक रेफ् तत् रेफ् अधि यदि अस्ति वा हा अधुना श्रूयते जयन्ति भगिनी वा हा वदतु रेप रेपकारणात् नकारस्य नत्वं भवति खलु प्रणमति सूत्रं स्मरति आम आम आम वा आम् आं भगिनी अहं श्रोतुं शक्नोमि अहं पृच्छामि सूत्रं वदति सूत्रं स्मरति वा रेफकारणात् तद्भवति तत्तु योग्यं परन्तु सूत्रं स्मरति वा इति प्रश्नः सूत्रम् इदानीं अस्तु अहं तत्र रेफ रषाभ्यां नूनः समानपदे इति सूत्रम् रषाभ्याम् इति आम् आम् हा रेफ रेफ वा षकार मूर्धन्यषकार अस्ति चेत् किं भवति तस्य तत्र नकारस्य नकारः भवति <coughs> इति विषयः अस्तु अत्र हा तत् पश्यन्तु तस्य अवलोकनं मया कृतमत्र इणधातो गतसप्ताहे वयं दृष्टवन्तः अत्रापि लिखितमस्ति इणधातो अधि उपसर्गेण सहितः एव प्रयुञ्जते इणधातुविषये नास्ति तथा इङ्ग् इक हा इङ्ग् इक इक इत्युक्ते इक, इक स्मरणे इति अध्ययने इकधातु इङ् अध्यये अध्ययने धातु नित्यम् अधिपूर्वक न तु धातु तत्र अपि परिष्करणम् आवश्यकम् इति दृश्यते हा एतत् अवगतं वा लिखित्वा दर्शयामि एकनिमिषम् पश्यन्तु तत्र इण एकम धातु तस्य सिगत इण गतौ गत्यार्थे इङ् इति धातु इङ् कखगङ् तदस्ति इङ् अध्ययने यत् अध्ययनं वयं वदामः तत् इङ्ग् तः भवति अनन्तरम् इकधातु तत् इङ्ग् धातु इकधातु नित्यम् अधिपूर्वकम् अधि न तु इणधातु इण धातु अधिपूर्वकमिति न अत्र अस्माकं पुस्तके तत्र मुद्रणदोषः दृश्यते इणधातु अधि उपसर्गेण सहित एव प्रयुज्यते तत् न तथा इङ्गधातु इकधातु अधिपूर्वकं न तु इणधातुम् तथैव सन्तुष्टति अपि तत्र अपि दोषः वर्तते तदपि अहम् अन्वेषणं कृत्वा अग्रिमे वर्गे वदामि परन्तु अत्र इण धातु अधि उपसर्गेण सहित इति न इङ्ग् इक् द्वयोः धातयोः तत्र तेषां कृते तयोः कृते एव अधि इति उपसर्ग अस्तु स्पष्टमस्ति सर्वेषां स्पष्टमस्ति भैं। अधुना अग्रिमे गीताभगिनी भवती पठति वा प्र उपसर्गं सा क्रियापदं भवति उपसर्गसहितं प्रभवति उपसर्गम् अनु क्रियापदं वदति उपसर्गसहितम् अनुवदति उपसर्गं वि क्रियापदं सरति उपसर्गं अव क्रियापदं गच्छति उपसर्गसहितम् अवगच्छति उपसर्गं क्रियापदं क्षीयति उपसर्गसहितं निक्षीयति उपसर्गं पुनः एकवारं वदतु किं एकवारं पुनः वदति वा उपसर्ग नी क्रियापदं पठिपति हा उपसर्गसहितं निक्षिपति आं हा योग्यं हा हा उपसर्गम् उप क्रियापदं करोति उपसर्गसहितम् उपकरोति Hmm. उपसर्गं क्रियापदं पतति उपसर्गसहितं सारी उत् <coughs> उत्पतति उपसर्गं निस् क्रियापदं सरति उपसर्गसहितं निस्सरति उपसर्गम् अधि वसति उपसर्गसहितम् अधिवसति hmm. उपसर्ग अनु क्रियापदं सरति क्रियापदसहितम् hmm. अनुसरति hmm. उपसर्ग अव क्रियापदं नमति सारि अवनमति अवनमति अवनमति हा उपसर्गं सं क्रियपदं गृह्णाति सङ्गृह्णाति हा उपसर्गं वि क्रियपदं hmm. नश्यति hmm. विनिष्यति विनश्यति विनश्यति विनश्यति विनश्यति पर्याप्तम् योग्यमस्ति धन्यवादः अग्रिमे आगस्ट् महोदये भवान् पठति वा प्र आप्नोति तः नमस्कारः भगिनी उपसर्ग प्रियापदम् आप्नोति उपसर्गसहितम् Uh, उपसर्गसं क्रियापदं तरति उपसर्गसहितं सन्तरति उपसर्गप्रा क्रियापदं याति उपसर्गसहितं प्रयाति hmm. उपसर्गसं क्रियापदं जायते उपसर्गसहितं सञ्जायते hmm. उपसर्गप्र क्रियापदम् hmm. आर आरभते hmm. उपसर्गसहितं प्रारभ प्रारभति सत्यं प्रारभते उत्तमम् उपसर्ग आ क्रियपदं दत्ति उपसर्गसहितम् आ दत्ति उपसर्ग उप क्रियपदं रमति उपसर्गसहितम् उपरमति उपसर्ग उप क्रियापदं पद्यति उपसर्गसहितम् उपपत्यति उपसर्ग वि योग उपसर्गनि उपसर्ग क्रियापदं वर्तते उपसर्गसहितं विनिवर्तते उपसर्गपरा तत्र परिवर्तनं भवति रेफस्य ल इति भवति अधुना हा अधुना एकवारम् उपसर्गाः द्वाविंशतिः उपसर्गा आवली तत्र दृश्यते तत् एकवारं तत् पठतु महोदय अग्रिमे अवधेयम् वधेयं उपसर्गाः द्वाविंशतिः सन्ति ते च प्रा, प्रा अप सं अनु अव निस्निर् दुस् दुर्वि आङ् आधि अधुना व्याकरणशास्त्रे एतेषाम् उपसर्गाणां प्रादयः इति एका संज्ञा प्रादयः प्रा आदयः इत्युक्ते पश्यन्तु आवल्यां का स्थितिः प्र आदौ अस्ति प्रादयः इत्युक्ते प्र आदौ यस्य सह प्रादयः प्र आदौ अनन्तरं प्रपरापसम अनु अवनिस्निर्दुस् दुर्वियाङ्गनि अदि अपि अति उप अत्रापि पश्यन्तु तत्र अप इति अस्ति अव अप अन्तिमे अकार अस्ति पूर्णतया तत्र परन्तु उत् तत्र पश्यन्तु हलन्त इति हा निश, निस् सम्पूर्ण निस् इति ने निस् निर् दुस् दुर् उत् उप इति अस्ति न तु उप् इति तत् स्मरणे सर्वेषां भवेत् इति इतोपि एकः अंशः अत्र पश्यन्तु वर्तते तत्र विनि इति अस्ति विनि इत्युक्ते एकस्य क्रियापदं क्रियापदस्य कृते एकः एव उपसर्गः प्रयुञ्जते इति न हा उपसर्गद्वयम् अपि भवितुमर्हति कदा कदा तत्र त्रयाणाम् उपसर्गाणां तत्र योजना भवितुमर्हति हा तदपि भवति अधुना सम विषये तत् सन्तुष्टति तत्र अनन्तरं पश्यामः अत्र पश्यतु सम समतरति समगृह्णाति पश्यामः तत्र किं भवति इति हा लेखनसमये कथं लेखनीयम् इति प्रथमता तु सम उपसर्गपूर्वक् स्तम् इति अस्ति हा तत्र हलन्त अस्ति मकारं हा प्रथमम् उदाहरणं स्वीकुर्मः स्तम् अनन्तरं जायते इति अस्ति सम जायति. अधुना सम् इति उपसर्ग उपसर्ग इत्युक्ते तस्य पदसंज्ञा भवति उपसर्गस्य पदमेव स्वीकृत्य तेन भवति पदस्य अन्ते मकार तस्य अनुस्वारः भवति सं जायते तत्र सामान्यतया सञ्जायते इति वयं लिखामः तत् कोऽपि तत्र दोषः न परन्तु अधुना वयम् संस्कृतस्य अध्येता वयं सर्वे अध्ययनं कुर्मः अतः तत्र अनुस्वारस्य किं भवति जकार अग्रिमे अस्ति तत् जकार कस्मिन् वर्गे आगच्छति कोऽपि वदति वा जकार इत्युक्ते च वर्ग अधुना च वर्गे, वर्गे।, वर्गे। चावर्ग। अन्ये के के वर्णाः च च छ अस्तु तत् सर्वे हलन्त इति हा न पूर्णता अधुना अत्र जकार अत्र अस्ति च वर्गे अन्तर्भूतः अनुस्मार जकार प्राप्यतस्ति थी तस्य अनाक असिकुक् तीमयकार अतः लेखनसम विखा सेखनसम सभी योग्यम परु संस्कृत अध्ययनं वयं कुर्मः अतः सञ्जायते एवं लेखनीयम् अनुस्वारः भवति अनन्तरं तस्य परसवर्णरूपेण अनुनासिकत्वम् आगच्छति परसवर्ण इतोपि एकम् उदाहरणं वयं दृष्टवन्तः सम उपसर्गपूर्वक गृह्णाति इति पदम् किमस्ति गृह गृति टू होलडेट हाँ ग्रहधातु अस्ट तत् गृति गृति अंति मकार अस्त सम उपसर्ग से पदसंज्ञा अतः मकार इति अग्रिम गर्गे अंतर्भूत र्णाः के के वदतु अनन्तरं ङ वाङ्मयम् इति गङ्गा सत्यम् अतः अनुस्वारस्य किं भवेत् परसवर्ण इत्युक्ते अन्तिमं ङ भवति अतः लेखनसमये कथं लिखामह सङ्गृह्णाति इति लिखामः इत्युक्ते सकार तथैव मकारस्य स इति गृह्णाति अत्र स्पश्यतु अम्ने तो संग इति हलन्ते सङ् गृह्णाति इति गृह्णाति सङ्गृह्णाति सङ्गृह्णाति हा इतोपि एकम् उदाहरणं यत् अस्माभिः पठितं तदेव सम उपसर्ग सम् उपसर्ग मकारस्य अनुस्वार भवति सम् अनुस्वार अधुना किं भवति वदन्तु कुपि वदति तकारस्य नकारं भवति तकारवर्गस्य पञ्चमवर्गः नकारं सञ्चरति सञ्चरति सत्यं तथ दध न इति अस्ति खलु त दथ दध न अतः न इति अनुनासिक अतः तद्भवति समय अनुस्वार अनुस्वारसहितं संतरति अपि योग्यमेव परन्तु किञ्चित् व्याकरणस्य ज्ञानम् अस्ति अतः संतरति इति लिखामः अस्तु अस्तु उपसर्गस्य पुनान्तर्गच्छ उपसर्गाणाम् आवलिः अत्र अस्ति द्वाविंशतिः उपसर्गः तत्र प्रादयः इति संज्ञा इतोपि एकं सूत्रम् उपसर्गस्य विषये तत् उपसर्ग क्रियायोगी इत्युक्ते तस्य योजना कुत्र भवति तत्र क्रिया क्रिया इत्युक्ते क्रियापदं क्रियापदेन सहित उपसर्गाणां योजना तत् अतः उपसर्ग क्रियाे अदुना यहाँ दृष्टव उपसर्गे भवती। उपसर्गा अर्थपरवर्तन होपसर्गा योजना यदि कूा अर्थपरवर्तन होती पशन तो अवती एक अस्सी तरह उदाहरण स्वीकु हाँ हा, प्रभवती हाँ भवति तत अधुना भवति इत्युक्ते किं वयं जानीमः भवति हा तत् अधुना यदा अहम् एकं वाक्यं वदामि हा गङ्गा हिमालयात् प्रभवति गङ्गा हिमालयात् प्रभवति इत्युक्ते किं कः अर्थः स्वशब्दैः वदति चेत् चलति तत्र उत्पत्ति गङ्गायाः तत्र उत्पत्ति कुत्र भवति कस्मात् भवति हिमालयान् भवति इति हा अधुना भू ह अधुना यदा अहं वदामि अनु उपसर्ग अनुभवति अनुभवति इत्युक्ते किम् <laughs> अनुभवं भवति हा एक्स्पीरियन्स् इति अर्थः अनुभवति अनु अधुना हा अत्र उपसर्ग सम उपसर्गयोजयामः तत् किं भवति सम्भवति सम्भवति इत्युक्ते तत्रापि भगवद्गीतायाम् अस्ति खलु धायतविषयान् पुरुषसङ्गस्येषु तत्र एव सम्भवति खलु अस्ति सम उपसर्गपूर्वकं भवति अधुना योजयामा। परा इति योज योजयामः चेत् किं भवति ब... परा भवति Para... आ, पराँवा, पराँवा uh, um, opposite, uh, परा परा भवति इत्युक्ते किम् जयं पराजयं प्राप्नोति जयं न प्राप्तु प्राप्नोति इति परा भवति अधुना उत् उपसर्गस्य योजनेन किं भवति उत् भवति उद्भवति उद्भवति उत्पन्नं भवति उद्भव इत्युक्ते तत् उत्पन्नं भवति अस्तु mm -hmm. so, तत् वारं वारं तस्य पठनेन एव अस्माकं ज्ञानवर्धनं भवति अधुना पश्यतु अत्र उपकरोति उप, उप अत्र पश्यतु उप् इति नास्ति उपकरोति करोति इत्युक्ते तत् कार्यं करोति स्टु करणे डुक् करणे इति दातु उपकरोति इति वदामः चेत् किं भवति अर्थकः अर्थः उपकरोति उपकारं करोमि फेवर् इति oh, भाव खलु उपकरोति hmm. अधुना हा अत्र निर् इति उपसर्गयोजयामः किं भवति निर्कर् निर्करोति तत् भवती निराकरोति इति निराकरोति इत्युक्ते तत्र समस्यानां निराकरणम् इति अस्ति खलु समस्या इति समस्याविषयकनिराकरणम् इति प्रतिष्ठयामः चेत् किं भवति प्रतिकरोति प्रतिकरोति सः करोति तस्य तस्य मित्रम् अपि प्रतिकरोति इति हा अधुना अधुना बि अत्र पश्यन्तु सर्वे अत्र करोति विषयक एव उदाहरणं तत्र वि आ, उपसर्गद चिंत आम्य अस्सी तत् अस्त इकार से अनम आ व्या करोती। व्या करोती। हा तस्य व्याकरणं शब्दानां योजनं शब्दानां का योजना कथं भवति तस्य अर्थः कः एतत् सर्वं व्याकरोति अस्तु एतेषाम् उदाहरणानि इतोपि एकं पश्यामः तेन दृढता भवेत् मनसि किञ्चित् उपसर्गद्वयं तु अभवत् अधुना अत्र एकम् उदाहरणं हा <laughs> अत्र योजयामि सम उपसर्ग अनन्तरम् उप अनन्तरम् आ उपसर्गत्रयं योजयामि अनन्तरं गच्छति गमधातु अधुना वदतु समुपग समुपयागच्छति समुपागच्छति गच्छति समुपा गच्छति इत्युक्ते पश्यतु उप उप उपागच्छति आगच्छति अनन्तरम् उपागच्छति समुपा गच्छति टु टु काल् इन् टु क्लोस् काण्टाक्ट् समूपा आगच्छति इति भवतु हा क्लोस् काण्टाक्ट् आगच्छति अत्रापि एकम् अतोपि एकम् उदाहरणं वा मनसि आगच्छति पश्यन्तु उत्तरं विस् इस् वेरि इण्ट्रेस्टिङ्ग् अभि अभि अपि उपसर्ग अनन्तरं नि अपि उपसर्ग विश् दातुं विश् तोः विशते इति रूपम् किं भवति अभिनिविशते अभिनिविशते लेट् वि जाय्निङ्ग् अभिनिविशते देट् इस् टु एण्टर् इन्टु द रिज़ोल्युशन् इति भावः रिजोल्युशन् भवति तदा अभिनिविशते अस्तु अनंतरम गत अनम रूधा विषय अं तहे तत्र आर, तहरती कथम बवती अनंतरम अपहरती अपहर विहारम कौती विहरती अनंतरम अनम हम कौती हरती प्रहरती प्रहारम कौती संहरतीशम नाशन हो अस्तु योग्यम् उत्तमम् अग्रे अपि पठनं कृत्वा अनन्तरं कथां प्रति गच्छामः हा एतत् सर्वम् एतावत्पर्यन्तम् उपसर्गाणाम् आवलिः अग्रिम अग्रे वेविना भगिनी पठति वा लम्बहिस् अन्तर तत्र भगिनी हा, हा पठतु एतं पुटस्य सङ्ख्या कथं भवतिख्या वा वदामिटि फोर् इति अस्ति तत्र अग्रिमे अस्तु भगिनि <coughs> अलं बहि बहिस् अन्तर् इत्यादयः उपसर्ग, उपसर्ग तुल्याः एव भवन्ति यथा अलं योगः करोति अलङ्करोति अत्र पश्यन्तु सर्वे किम् अभवत् अलमस्ति मकारस्य अनुस्वार अनन्तरम् अनुस्वारस्य परसवर्ण अतः क ख गङ अतः तत् अलङ्क एवं खलु स्पष्टमस्ति विणा भगिनी हा भगिनी स्पष्टमस्ति अग्रिमे अग्रिमे बहिः बहि योगः करोति बहिष्करोति तत्र सकारस्य शकारः भवति सकारात् प्राक् किम् अस्ति इ अस्ति ब ह इ अतः तद् बहिः भवति सकारात् प्राक् इ तदा सकारस्य षकार भवति बहिष्करोति भवति इति हा दन्त्यसकारस्य मृर्धन्यषकार भवति अस्तु भगिनि अग्रिमे अन्तर् योगः भवति अन्तर्भवति अत्र तु नथिङ्ग् अंतर भवति तदेव अस्ति वा तथैव परन्तु रेफस्य का विशेषता <laughs> रेफ लेखनसमये किं भवति तस्य उच्चारणसमये अन्तर् भवति इति भवति इत्युक्ते तत्र भ प्राक् रेफस्य उच्चारणं परन्तु लेखनसमये का स्थिति अन्त अनन्तरं भ उपरि तत् रेफो गच्छति खलु भ वर्णस्य उपरि रेफस्य चिह्नम् अन्तर्भवति उच्चारणसमये रे, अन्तर् रेफो प्राक् भ एतस्य प्राक् परन्तु लेखनसमये तत् उपरि गच्छति तत् अन्तर्भवति तत् उपरि तत् अस्तु भगिनि अग्रिमे अन्तर्भवति उपरि अन्तर्भवति अन्तर्योगः वसति अन्तर्वसति तदेव तथैवं तदेव तथैव अग्रिमे स्वी उष्णी सज्जी इत्यादयः अपि उपसर् उपसर्गतुल्याः सन्ति यथा उष्णीयोगः mm. करोति mm. mm. उष्णीकरोति सज्जीयोगः करोति उष्णी करोति, mm. करोति, करोति. Mm. अत्र पश्यन्तु उपसर्गः उपसर्गाणां यत् आवली उपसर्गा, तत्र अस्ति द्वाविंशति उपसर्गः प्रादयः इति नामना परन्तु तत्र तेषु तत् स्वी उष्णी इति नास्ति सज्जी अपि नास्ति परन्तु तत् उपसर्गतुल्याः सन्ति वस्तुतः ते ट्वी प्रत्ययान्त स्वीकरोति उष्णीकरोति सज्जीकरोति कण्ठस्थीकरोति करोति, स्पष्टीकरोति तत् स्वीप्रत्ययन्तरूपाणि सन्ति परन्तु तत्र तेषाम् उपसर्गतुल्याः इति स्थानम् उपसर्गतुल्या लैक् उपसर्ग, उपसर्ग, उपसर्ग एव अतः तत् क्रियायाः क्रियापदस्य प्राक् तस्य योजना भवितुमर्हति तस्मात् कारणात् तत्र अर्थपरिवर्तनम् अभवत् करोति इस् कार्यं करोति स्वीकरोति इस् टु एक्सेप्ट् खलु स्वीकरोति स्वीकरणम् इत्युक्ते टु एक् उष्णीकरोति इत्युक्ते तत्र उष्णीकरणं जलस्य उष्णीकरणं सज्जीकरोति इत्युक्ते सज्जीकरोति न्यूनीकरोति इत्युक्ते टु मिनिमैस् न्यूनी कण्ठस्य करोति इत्युक्ते इति इत्युक्ते एते सर्वे शब्दाः उपसर्गतुल्याः सन्ति इति दत्तमस्ति तुल्या इत्युक्ते हा, तेषां योजना अपि क्रियापदस्य प्राक् भवितुम् अर्हति इति अस्तु तेन अर्थपरिवर्तनं भवति इति अत्रिमं उपसर्गनियमाः उपसर्गः धातोः पूर्वं भवति यथा आयोगं गच्छति आगच्छति अत्र आ आ इति उपसर्गः गच्छति इति धा गम् धातो भगिनी गम् पूर्वे भवति प्राक् आगच्छति भवति आम् इत्युक्ते उपसर्गाः क्रियायोगे क्रियायाः योगे, क्रिया योगे उपसर्गाः भवन्ति परन्तु धातोः पूर्वं भवति हा आ उपसर्ग गच्छति इति आ उपसर्गपूर्वक आगच्छति इति रूपं गमधातोः इति योग्यम् अग्रिमे अग्रिमे पठतु उपसर्गेण कदाचित् धातोः अर्थः परिवर्तते यथा स्मरति विस्मरति गच्छति आगच्छति पथ्यते प्रपद्यते इत्युक्ते अत्र अर्थम् आपोसिट् भवति परि परिवर्तनं भवति स्मरति भवति विस्मरति स्मरति इत्युक्ते टु hmm. रिमेम्बर् hmm. विस्मरति इत्युक्ते hmm. टु फर्गेट् भगिनि देविकम् ओपोज़िट् सत्यं सत्यं गच्छति भवती आगच्छति गच्छति hmm. इत्युक्ते टु गो आगच्छति hmm. इत्युक्ते टु कम् hmm. hmm. hmm. अग्रिमे पद्यते इत्युक्ते किं भगिनि अत्र पद गतौ इति धातुः अस्ति गत्यार्थक् पद इष्टु पद पद इत्युक्ते टु गो इति पद्यते अर्थ अत्र पश्यतु भगिनी विना भगिनी तत्र सर्वेषां धातूनां कृते अर्थदृष्ट्या तत्र सप्तम्यन्तं रूपमस्ति हा पद गतौ अनन्तरं सृज सृजविसर्गे इति धातूनाम् अर्थसम्पादनं कथं भवति तत्र धातुपाठे मूलतः पाणिनीयधातुपाठे अर्थ अर्थस्य कृते सप्तम्यन्तं पदानि प्रयुञ्जानी तत्र दृश्यते हा पदगतौ गमगतौ हा अनन्तरं यथा अहमुक्तवते सृजविसर्गे इति अधुना रियच् यज्ञधातुः वारं वारं वयं भगवद्गीतायां वदामः यज्ञधातु देवपूजा गतिसङ्ग देवपूजा सङ्गतिकरणदानेषु इति सप्तमी अर्थदृष्ट्या धातुपाठे यदा पश्यामः चेत् तत् सप्तम्यन्तं पदानि सन्ति अतः तत् मया उक्तं पदगतौ इति हा इत्युक्ते पद्यते इस् टु गो हा गच्छति इति अर्थः परन्तु प्रपद्यते उपसर्गस्य योजनेन प्रपद्यते बहुवारं भगवद्गीतायां वयं वदामः तत् जयन्तिभगिनी प्रपद्यते इत्युक्ते किं स्मरति वा श्लोकं स्मरति वा शरणागत शरण भगवतः तत्र चरणद्वयं भगवतः तत्र सम्पूर्णतया शरणार्थि इति प्रपद्यते यत्किमपि भवति तद् भगवतः इच्छया एव भगवता इच्छया एवं सर्वं भवति इति सम्पूर्णतया शरणार्थी इति अस्तु भगिनि सूपर् अग्रिमे कदाचित् उपसर्गः धातोः अर्थस्य पोषणं करोति यथा शोभते शोभते hmm. लिखति विलिखति hmm. आरभते प्रारभते hmm. चरति hmm. जायते, संजायते. अत्र उपसर्गः धातोः अर्थस्य पोषणं करोति स्ट्रेन् न तावत्पर्यन्तम् अत्र शोभते इति शोभते इच् तु लुकिङ्ग् गुड् परन्तु सुशोभते यदा विवाहप्रसङ्गे वयं वदामः तत्र सुशोभनं कृतमस्ति पुष्पाणां योजना तत्र पूजाप्रसङ्गे अपि तत्र सुशोभनं सुशोभते इति लिखति विलिखति पश्यन्तु तत्र लिखति इत्युक्ते सामान्यतया लेखनं करोति परन्तु विलि विलेखनम् इत्युक्ते किं विशेषतया तत्र लेखनं तत्र किं तत्र विलेखनं कुत्र अस्ति तत् मन्दिरे वा तत्र दानप्रसङ्गे दानपत्रं पुरा रूपाणां तत्र दानपत्रस्य योजना यदि करणीया अस्ति तदा तत्र विलेखनं भवति तत्र मन्दिरे अपि तत्र कुत्र कुत्र दृश्यते खलु तत् विलेखनं कृतम् इति शुभकार्यस्य विषये आरभते प्रारभते अत्र अपि शुभारम्भं यदा तत् केवलम् आरम्भम् इति न प्रारम्भम् इति चरति चरति चर इत्युक्ते एकवारं अत्र तत्र गमनीयं परन्तु सञ्चरति इत्युक्ते तत्र मीनिङ्ग्फुल् सञ्चरति इत्युक्ते तत्र वाण्ड्रिङ्ग् इति न मीनिङ्ग्फुल् तत्र सञ्चारः भवति इति अस्तु देवर्षि नारदविषये वदामः त्रिलोके सञ्च सञ्चरति इत्युक्ते तत्र टु पास् द टैम् इति न परन्तु तत्र किमपि mm. कापि का योजना नारदमुनेः योजना अस्ति तत्र कलह कलहः परन्तु निरर्थककलहम् इति न परन्तु वित् अ नोबल् कास् भगिनि नोबल् कास् एस् तत् उद्देशपूर्वकभ्रमणम् इति अस्ति सञ्चरति सञ्जायते तत्तु जयन्ती भगिनी सञ्जायते श्लोकः यावत् सञ्जायते क्रोधः तस्य उत्पादनम् इत्युक्ते तत्र प्रकर्षेण तत् उद्भवति जायते जन जनदा जन जायते इति तत प्रकर्षेन तत आगच्छति इति एवं सर्वम् अस्ति अग्रिमः भागः अनन्तरं पश्यामः पूर्वद्वित्रा तत्र बह बहूनि उदाहरणानि सन्ति वयं कथां प्रति अधुना गच्छामः अस्तु अधुना एषा कथा तत कलुषितं मनं तत अस्माकं तत् संशयात्मा विनिष्यति तस्य विषयकः एव कलुषितं मन अस्माकं कथा इतोपि एका कथा यतो हि तत् उपसर्गस्य अध्ययनम् अग्रिमे बुधवासरे अपि प्रचलिष्यति तदापि संशयात्मा विनश्यति एतस्य अर्थबोधनार्थम् एव वयं कथा स्वीकुर्मः अधुना कलुषितं मनः इति कथा धन्यवादः विणा भगिनी धन्यवादः धन्यवादः भगिनी अधुना जयन्ती भगिनी आरम्भं करोति आं मेनि कलुषि कलुषितं मनः एकदा एकदा गौतम एकनिमिषे मेनि न दृश्यते वा स्पष्टं नास्ति एकनिमिषम् अधुना अधुना स्पष्टमस्ति वा स्पष्टमस्ति भगिनि बट् इन् बट् वी हाव् टु एन्लार्ज् इन् ज़ूमिन् Mm -hmm. गौतमबुद्धः अनुयायिभिः सह ग्रामान्तरम् गच्छन् आसीत् मार्गे गमनसमये सर्वे परस्परं चर्चा कुर्वन्तः कुर्वन् चर्चा कुर्वन्तः समस्यायाः परिहारम् चिन्तयन्तः गच्छन्तः आसन् एकदा गौतमबुद्धः अनुयायि अनुयायिभिः सह गौतमबुद्धस्य तस्य अनुयायिः ऐ मीन् फालोवर्स् फालोवर्स् सः गच्छन् एक ग्रामं गच्छन् आसीत् सः तदा मार्गे गमन समये, मार्गे गमन समये सर्वे आगत्य सर्वे पर परस्परं चर्चा कुर्वन्तः एकः प्रति hmm. एकसः चर्चां कुर्वन्तः कि विषये hmm. इत्युक्ते समस्यायाः परिहारं चिन्तयन्तः गच्छन्तः आसन् एकः अन्यः कृते किमपि चर्चा कृत्वा तस्य समस्यापि पृष्ट्वा परिहारमपि चर्चा कृत्वा मार्गे गच्छन् आसन् गच्छन्तः आसन् गच्छन् सारि कश्चन शिष्यः बुद्धम् अपृच्छत् गुरुवर्य मनः करुषितं चेत् तस्य शुचीकरणं कथम् इति एकः शिष्यः गौतमबुद्धम् अपृच्छत् पृच्छति पृष्टवान् गुरुवर्यः मन मनः कलुषितं चेत् तस्य शुचीकरणं कथम् इति इत्युक्ते मनः मनसि किमपि सञ्चलम् अस्ति चेत् तस्य शुद्धीकरणं कथं भवति इति एकः शिष्यः पृष्टवान् तदा बुद्धः अवदत् तदर्थं किमपि करणीयं नास्ति इति तदा तस्य उत्तरं शिष्य शिष्यम् उत्तरं दत्तवन्तः गौतमबुद्धेन किमित्युक्ते तदर्थं किमपि न करणीयम् इति स्पष्टमपि सत्यम् अत्र पश्यन्तु सर्वे किमस्ति तत्र पश्यन्तु परिहारं तदपि परितिहर परिहरति परिहरति समस्याया परिह इतोपि एक तत्र आम् आम् सोल्यूषन् शुचिकरणं तदपि स्पष्टीकरोति शुचिकरोति इत्युक्ते तत् उपसर्गतुल्य एव शब्दः शुचि इति शुद्धीकरणं शुचि इति तत् हा शुचिकरणम् इति अस्ति अधुना प्रश्नः कः कथं शुचिकरणमस्ति तस्य कथं करणीयम् इति प्रश्नः बुद्धः वदति तु किमपि वा करणीयम् कथमेतत् पश्यामः अधुना विषयकः मनसः कथं शुद्धीकरणं करणीयम् इति विषयः अस्ति कथायाम् पश्यामः अस्तु अग्रिमे अपि तत् पर्यन्तं पठतु तत् नदीं प्रति तावत्पर्यन्तं पठतु शिष्य शिष्य च तृप्तिः न जाता तथापि किमपि अपृच्छन् सः तूष्णीं तूष्णीं कुरुम् अनुसृतवान् गौतमबुद्धस्य उत्तरेण तस्य शिष्य शिष्यः न तृप्तिः अतृप्तवान् भवति तदापि सः किमपि न अपृच्छन् मौनेन तां तम् अनुपृष्टवान् अनुसृतवान् इति अनुसृतवान् अत्र अपि पश्यतु स्रु इति धातु स्रुसरणे स्रु गतौ सर्प तत् गतौ परन्तु अनु उपसर्गः गच्छति इत्युक्ते टु तु फालो यदा यदा पश्यतु अस्माकं तु तत् उपसर्गस्य ज्ञानं यदा अस्ति तत् शनैश्चनैः तत्र चयनं कृत्वा तस्य अर्थदृष्ट्या कथं परिवर्तनं तत्र इतोपि तत्र अर्थपरिवर्तनं भवति वा तत्र अर्थस्य पोषणं भवति वा तत्र अर्थ अर्थे किमपि बाधा सर्वम् अस्माकं चिन्तनं भवेत् इति अस्तु अस्तु धन्यवादः धन्यवाद अग्रिमे पठ अम्बिकापतिमहोदय पठति वा गमनमार्गे ततः आरभ्य गमनमार्गे काचित् नदी प्रवहति स्म ीर् तीरे कस्यचित् वृक्षस्य अधः क्षुद्बाधावि क्षुद्बाधानिवारण निवारणार्थं mm -hmm. mm -hmm. सर्वे उपविष्टवन्तः mm -hmm. तदा बुद्धः प्रश्नं कृतवन्तं शिष्यं mm -hmm. आहूय पारजलम् आनय इति आदिश्य नदीं प्रति प्रति प्रेषितवान् हि सेण्टि फार् फोर् वाटर्टिङ्ग् अधुना अत्र पश्यतु गमनमार्गे तत्र नदी आसीत् हा तत्र वृक्षस्य अधः सुधबाधानिवारणार्थं सुधा तत् इत्युक्ते तत्र हङ्गर् वा तत्र तृष्णा एवं सर्वं हा तस्य निवारणार्थं सर्वे उपविष्टवन्तः अत्रापि उप विष्ट अत्रा उपसर्ग उप विष्टवन्तः इति प्रवेशितवन्तः इति भावः अधुना बुद्धेन किं कृतम् यः शिष्यः प्रश्नं पृष्टवान् तम् एव आहुय, आहुय, इस् कॉल, काल् कि किं पानजलम् आनय इति हा तत्र टैपो अस्ति पानजलम् आनय इत्युक्ते पाजलम् आनयतु इति ह इति आदिश्य दिश आ इति उपसर्ग आदिश्य नदीम् प्रति प्रेषितवान् नदीम गच्छतु जलम आनयतु इति सह सः उक्तवान् अग्रिमे अपि पठतु एकं प्रश्नमस्ति भगिनी एकं निमिषं महोदय अत्र पानजलम् अनय अनय भवति भगिनी आनय तु नास्ति एतद् दोषं वा न न तत्र अनय न भवति तद् अस्ति आनय इति अस्तु भगिनी अनय टैपो अस्ति तत्र नयधातु नय धातु हा हा पृच्छतु उपविष्टवन्तः तत्र दातु वा न विश् इति धातु विष्टवन्तः तत् प्र उपसर्गपूर्वकमपि विश् दातु Uh, उप उपसर्गपुर्वत् अपि विश् धातु उपविष्टवन्तवन्तः विश् मूलतः धातुरूपे शकार अस्ति इत्युक्ते तालव्यशकार अस्ति परन्तु एकं सूत्रम् अस्ति तस्मात् कारणात् तालव्यशकारस्य मूर्धन्यशकारः भवति हा अधुना मूर्धन्यशकारः भवति तदा तवतु तु प्रत्यय तत्र तकारस्य अपि भवति किमर्थम् तकारस्य शकार अभवत् अतः तकारस्य अपि तकार स्त इति भवत् अतः उपविष्टवन्तः इति रूपम् अधुना भवान् अम्बिकापतिमहोदय अग्रिमे अपि पठतु तत् खलु शीतं जातं पर्यन्तं पठतु अनन्तरम् शिष्यः <coughs> नदीम् आगतः तत्र कश्चन महिलाः वस्त्राणि प्रक्षालयन् प्रक्षालयन्त्यः आसन् आसन् mm, mm. तस्मिन् एव तस्मिन्नेव समये कश्चन ब्रिश, वृष वृषभशकटः ब्रिश, mm. वृषभशकटः अपि नदीं तीर्थे आ तीर्त्वा गतः तस्या जलं, तीर, जलं कलुषितं जातं किम् अभवत् तत्र शेषः नदीम् आगतः तत्र काश्चन महिलाः महिलाम् आगच्छति तदा वस्त्राणि प्रक्षालयन्ति महिलाः तस्मिन् एव समये किमभवत् कश्चन वृषभ वृषभकटः वृषभशकटः इत्युक्ते बुलक्काट्काट् अपि नदीं तीर्त्वा गतः वृषभशकटः तत् प्रसिद्धः तत् एका रचना महाकविकालिदासमहोदयस्य मृच्छकटिकम् इति मृच्छकटिकं तत् मृक् च कटं इति एकस्य नाटकस्य नाम इति अस्ति कालिदास महोदय लिखितमस्ति तत् नाटकं मुछ्छा कतिकं, मुछ्छा कतिकं। हा वृच्छकटिकं मृच्छकटिकं तत्रापि मूलतः मृच्छकटम् अनन्तरं सन्धिनियमकारणात् मृच्छकटिकं च मृच्छ अभवत् सन्धिनियमाः तत्र सन्ति आम् हा अस्तु अस्मान् किं किम तत्र शिष्यं पश्यति महिलाः वस्त्राणि प्रक्षालयन्ति तस्मात् कारणात् तत्र वृषभशकटस्य गमनं नदीं तीर्त्वा तस्मात् कारणात् सर्वं जलं कलुषितम् जातम् इति स्थितिः बुद्धः वदति शिष्यम् वदति पा, पान पा, पानीयम् इत्युक्ते जलपानम् करणीयमस्ति तत् जलम् आनयतु इति परन्तु यदा शिष्यः तत्र गतः तदा सर्वं जलम् कलुषितम् इति दृश्यते अधुना अग्रिमे किं भवति पश्यामः हा भारतमहोदय किमभवत पठति वा किमभवत् एतादृशं तत् आं भगिनी एतादृशं मलिनं जलं कथं गुरुवे ददां गुरवे दद्यां गुरवे दद्यां गुरुवे ददाम् इति चिन्तयन् शिष्यः रिक्तहस्तः सः प्रत्यागतः गतः mm. mm. बुद्धः अपृच्छत् जलं कुत्र जलं इति तदा शिष्यः अवदत् चलं कलुषितं अस्ति अतः mm. मया न आनीयतम् कश्चित् किञ्चिद् किञ्चिदनन्तरं किंचि, किञ्चित् किञ्चिदनन्तरं बुद्धः किञ्चिदनन्तरं बुद्धः शिष्यम् अवदत् पानजलम् अनय इति किमभवत् अत्र वदतु एतादश एतादृशं मलिनं जलं कथं गुरुवे ददां गुरवे अत्र गुरुवे इति अर्पणं करणीयम् इति भावत् तत् सम्प्रदान इति चतुर्थी अस्ति हा गुरुशब्दस्य गुरुवे तस्मै गुरवे नमः इति वदामः खलु तस्मै तस्मै श्री श्रीगुरवे चतुर्थी नमः इति कथं दद्यां कथं गुरवे, गुरवे अर्पणं जलम जलं शनप्रत्यागतः रिक्तहस्तः रिक्त इत्युक्ते एम्टि हेण्ड् रिक्त किमपि हस्ते नास्ति अधुना पश्यतु प्रत्यागतः तत्र उपसर्गः कः प्रत्यागतः प्रति बहु सम्यक् प्रति उपगतः प्रत्यागतः अत्र कः भावः रिटर्ड् प्रति आगतः इति बुद्धः अपृच्छत् जलम् कुत्र इति बुद्धः पृच्छति जलं कुत्र इति तदा शिष्य अवदत् एम् शिष्य अवदत् जलं कलुषितम् अस्ति जलं कलुषितं मीन्स् डर्टी ओर् it it was in uh, uh, good water hmm kurisit uh, hmm. asthi asuddham asuddham iti kahasi asuddham asuddham ah, asti ah. ah. atah maya na anitam uh, hmm that's why i didn't get it hmm ah uh, kin kichid kinchid d kinchid antaram kinchid antaram ah mm -hmm. uh, बुद्धः शिष्यम् अवदत् mm. पान जलम् अनय इति पुनः एकवारं सः उक्तवान् mm. जलम् आनय अत्र पश्यन्तु महोदय तत् किञ्चिदन्तरं तत् किञ्चिदनन्तरं तत् वस्तुतः किम् अस्ति किं किं mm पिक् -hmm. अधुना वयं दृष्टवन्तः खलु संविषये भवति मकारस्य अनुस्वार अनन्तरं परसवर्ण अग्रिमे च अस्ति अतः च छय अतः तत्र दृश्यते खलु चक किञ्चि च छजय किञ्चित् किञ्चित् अनन्तरं किञ्चिदनन्तरम् इति उत्तमं सम्यक् अस्ति धन्यवादः धन्यवादः अभिनयः अगस्ट् महोदय भवान् पठति वा तत् जलम् अस्ति तत् आरभ्य अस्तु भगिनी तत् जलम् अस्ति पङ्कयुक्तम् तत् पातुं न शक्यम् एव इति अवदात् शिष्यः पङ्कयुक्तम् Hmm. Is, is, uh, इत्युक्ते भगिनि अधुना पङ्कज इति एकं तत् पङ्कज इत्युक्ते कस्य पुष् पुष्पस्य नामकरणं पङ्कज जानाति वा पङ्के पङ्के उत्पन्नः पङ्के जायते आ, मड, हा तत् अस्ति कमलपुष्पं कमलपुष्पं पङ्कज तत् पङ्क इत्युक्ते मड् हा मडि वाटर् तत्र शुद्धं नास्ति स्वच्छं नास्ति कलुषितमस्ति अस्वच्छमस्ति पङ्कयुक्तमस्ति पङ्कं मिश्रितम् इति जलमस्ति मड् मडिवाटर् तत् पातुं न शक्यम् एव अहं पातुम् इत्युक्ते टु ड्रिङ्क् टु ड्रिङ्क् पातुम् तत्र पा इति धातु अस्ति तस्य पिबति इति रूपम् अहं जलं पिबामि मूलता धातु पा पा घ्रा स्थां ना तत्र स्था अस्ति तत् तिष्ठति इति रूपम् हा तदेकं सुक्रमस्ति तस्मात् कालात् पा इति पिबति रूपं परन्तु तुमुन प्रत्यय पातुं पातुम् इत्युक्ते टु ड्रिङ्क् न शक्य न शक्यमेव नाट् पासिबल् टु ड्रिङ्क् यतोहि तत् जलं पङ्कयुक्तमस्ति कथं वयं पिबामः इति सह चिन्तयति हा अस्तु इति सह अवदत् शिष्यः शिष्यः अवदत् बुद्धम् अवदत् अग्रिमे पठतु महोदय तत् तु कलुषितम् आसीत् तदा किन्तु इदानीं गत्वा पाश्य इति बुद्धः शिष्यम् अवदात् at to kalushitam sintada therefore is uh, dirty m mm, kalushitam it was dirty hmm so birth into birth now the name having having gone vashyam vashyam यत् आदेशः अस्ति तत् लोट्लकार अस्ति अज्ञार्थक अस्ति मध्यमपुरुष एकवचनम् इदानीं पश्य गो इति वदति बुद्धः पुनः एकवारं तदा तत् कलुषितमासीत् तदा तं स्वच्छं तदा जलं स्वच्छं न आसीत् तदा जलम् अस्वच्छमासीत् अधुना पश्य का स्थितिः अग्रिमे पठतु शिष्यः शहानदीं प्रतिगत्तः शिशः सत्यं योग्य अग्रिमे परमश्चर्यं परमश्चर्यं नाम अस्याः जलं शुद्धम् स्फटिकवत् आसीत् परमश्चर्यं नाम स्फटिकवत् स्फटिक् इत्युक्ते क्रिस्टल् क्लियर् क्रिस्टल् क्लियर् इति हा स्फटिक् स्फटिक् इत्युक्ते तत्र लवणस्य स्फटिकाः सन्ति अनन्तरम् अलम् इति अपि स्फटिक तस्य रूपं स्फटि क्रिस्टलेन् इति क्रिस्टल्स् तत्र एकं वक्तुम् इच्छामि पश्यन्तु परमाश्चर्यम् इति तत्र शब्दः अस्ति परम आश्चर्यं वारं, वारं वारं यथा वयं चिन्तयामः संस्कृतभाषा वैज्ञानिकी अस्ति तस्मिन् तत्र संस्कृतभाषायां विज्ञानमस्ति कथम् आश्चर्यम् इति शब्दस्य व्युत्पत्तिः चिन्तयतु किञ्चित् आश्चर्यम् इत्युक्ते किं सर्प्रैसिङ्ग् संथिङ्ग् सर्प्रैसिङ्ग् संथिङ्ग् फेसिनेटिङ्ग् तदा यदा वयं किमपि तत्र आश्चर्यजनकं वा संथिङ्ग् फेसिनेटिङ्ग् पश्यामः तदा किं भवति अस्माकं च इति चर्या इत्युक्ते मुख मुखमित्युक्ते मुखमिति न परन्तु मुखं तत्र मुखस्य उपरि भावाः अनन्तरं तस्य तत्र नेत्रे तत्र ये भावाः सन्ति अनन्तरं चर्या तत् आश्चर्या आश्चर्या आ, चरिया, आ, चरिया, आ श्चर्य आ इति वदामः खलु इफ् वी सी सम्ङ्ग् सर्प्रैज् इन् सम्थिङ्ग् आ तत् आश्चर्यम् इति अतः वारं वारं वयं वदामः संस्कृतभाषायां विज्ञानं वर्तते शब्दाः इत्युक्ते केवलं नान् लिविङ्ग् एण्टिटि इति न शब्दाः सजीवाः शब्देषु तत्र अस्तित्वमस्ति भावसहिताः शब्दाः इति अस्ति परम् आश्चर्यम् अधुना परम् इत्युक्ते अल्टिमेट् इति परम आश्चर्यं नद्याः जलं शुद्धं स्फटिकवत् अस्ति प्रथमं वारं यदा शिष्यः तत्र गतवान् तत्र जलं अशुद्धं तत्र कलुषितं जलं द्वितीयवारमपि तथैव अभवत् परन्तु अधुना तु स्फटिकवत् अस्तु अग्रिमे सन्तोषेण पठतु महोदय अगोस् महोदय सन्तोषेण सन्तोषेण पात्रे जलं स्वीकृत्य प्रत्यागत्य शिष्यः गुरवे त्यच्छन् गुरु गुरुवर्य जलं शुद्धम् अस्ति इति अवदात् अधुना किम् अवदात् into sinha um we tellam sukriya having received the water in mm -hmm. the in the in the pot in the vessel with with uh, happiness sukriyagat sukriya pratyagat having mm -hmm. come back the, the shiksha mm -hmm. that यच्छन् यच्छन, यच्छन, दा इति धातु अस्ति तस्य दा इति धातो दा इत्युक्ते तु, तु, तु गी इत दा दाने तस्य यच्छति इति रूपं भवति अर्पयति यच्छति ददाति गुरवे ददाति दा धन्यवादः भगिनि आम् प्रथम प्रथमाभिपात्यकवचनम् शुद्धम् अस्ति वदातु उत्तमं बहु सम्यक् अस्ति महोदय बहु सम्यक् अधुना भवान् तस्य अवगमनमपि कर्तुं सक्षमः तस्य पुनः एकवारं स्वशब्दैः वक्तुमपि भवान् समर्थः बहु सम्यक् बहु सम्य उत्तमम् अस्ति उत्तमम् अधुना जलं शुद्धमस्ति इति प्रत्यागतः तत्रापि प्रति स्वीकृत्य स्वी उपसर्ग तत् उपसर्ग एव भवति तत्र तत्र मूलता इति उपसर्ग न किं भवति तत्र उपसर्गवत् तद्भवति स्वीकरोति उपसर्गतुल्य शब्दः जलं शुद्धमस्ति अग्रिमे अग्रिमे गीता गीताभगिनी भवती पठति वा स्मितमुखः ततः अस्ति वा गीताभगिनी गीताभगिनी अस्ति वा पठति न पठितुं शक्नोति वा रमा भगिनी अस्ति खलु ओमा भगिनी पठतु अनन्तरं स्मितमुख न दृश्यामि भगिनी न दृश्यते स्मितमुख इति अस्ति खलु अन्तिमा पङ्क्ति मितमुखः बुद्धः शिष्यम् अपृच्छत् स्मितमुखः hmm. बुद्धः शिष्यम् अपृच्छत् hmm. तत् जलार्थं भवता किं कृतम् इति hmm. इत्युक्ते इत्युक्ते बुद्धः पृच्छति तत् शिष्यमेव hmm. किम् किमपि कृतवान् स्वज्जलार्थं किमपि कृतवान् किं किं कृतवान् भवान् तेन जलं जलस्य शुद्धीकरणम् अभवत् इति अस् अधुना प्रश्नम् अस्मित् स्मि तत्र स्मिङ्ग स्मयते इत्युक्ते तत् स्मैल् इति स्मी स्मित् इत्युक्ते तत्र हा हा हा कृत्वा हस् हास्यमिति न तत जण्टिल् स्मैल् इति तत् वयं वदामः स्मैल् इति स्मी इति धातु स्मी इति धातु स्मित mm. हा अग्रिमे किं कृतवान् अधुना अग्रिमे पठतु शिष्यः शिष्यः शिष्यः सम्प्रभेण सं, Håbina, uh, mm. मया किमपि न कृतं तत् तु स्वयमेव स्वच्छं जातम् इति शिष्यः उक्तवान् अहं न अहं किमपि न कृतवान् स्वयं स्वयमेव शुचीकरणं भवति इति तथा बुद्धः हसन् वत्स मनः mm अपि तदैव -hmm. नदीजल तत यदा कलुषितं mm -hmm. तथा किमपि न करणीयम् mm -hmm. कालं यावत् mm -hmm. सहन सहनया तूष्णीं स्थात स्थातव्यं mm -hmm. तथा स्तयमेव सच्यं भवति इति अवदत् तथा बुद्धः हस् हस् हस् हस्ति हसति और् वदति मनः अपि तथैव एव इति वदति नदी नदी जलवत् जलं जलं नदी नदीका जलं यावत् शुचीकरणं hmm. भवति तावत् मनमपि hmm. किञ्चित् कालं मौनं साधय तूष्णीं साधय शुचीकरणं इति अवदत् शिष्यः प्रश्ना प्रश्नस्य उत्तरं प्राप्नोत् प्राप्नोत् अद्य जीवने तथैव आचरत् अपि तिष्ठ उत्तरम् उत्तरं प्राप्नोत् प्राप्तवान् प्राप्तवान् प्राप्तवान् प्राप्त प्राप्तवान् अतः अतः जीवनो जीवनं जीवनेन अपि तथैव अनुसरति आचरणं कृतवान् तथैव अधुना इत्युक्ते मन् मनसि मनसि तत् विकल्पाः वा किं करणीयं किं करणीयम् स्थातव्यं स्तु इत्युक्ते किञ्चित् तत्र मौनम् धारयतु वा तत् रिपिटोलि इति नामस्मरणं करोतु तेन स्वयमेव स्वच्छं भवति दीर्घस्वा दीर्घस्वसनमिति योगाभ्यासे वदन्ति खलु दीर्घश्वसनं करणीयं स्वयम् एव स्वच्छं भवति इति कथायाः आशयः कलुषितं मनः Huh? तत् संशयात्मा विनश्यति इति अस्माकं विषयः संशयात्मा संशयात्मनः यस्य तस्य स्वच्छीकरणं कथं भवति अतः स्वयमेव तथा प्रयोजनम् इति अस्तु अधुना एकमेकं वदन्तु सर्वे अर्थबोधः कः कलुषितं भवति तदा सर्वकार्य mm -hmm. असफलं mm -hmm. भवति सत्यं सम्यक् योग्यम् mm. मनः एव तत् तदा सफलतां कथं प्राप्नोति न एव न केवलं सफल सफलतां तु नास्ति एव तत्र आ, कलुषिदशुद्धमनसा यत्किमपि वयं कार्यं कुर्मः ततव तत्र साफल्यं वर्तते तत्र यस्य प्राप्तिः तदा एव भवति योग्यं सम्यक् उत्तमं अन्य वदन्तु एकमेकं प्रतिदिनं सम्यक् मनस कलिष्टं स्थापयित्वा ध्यानं कर्तुं तत्समये मनस् शुद्धं करोति ध्यानधारणा इति ध्यानम् इति एकं तत् अङ्गं भवेत् अस्माकं दिनचर्यायाः प्रतिदिनं तत् करणीयम् इति अम्बिकापथिमहोदय वदति बहु सम्यक् तत् प्रतिदिनं तत् तस्य आचरणं भवे इति शुद्धीकरणं प्रतिदिनं प्रतिदिनं शुद्धीकरण अनन्तरं कलुषितं तु भवितुम् अर्हति पुनः अग्रिमे दिने अपि तत् शुद्धीकरणं तत्र भवेत् ध्यानं करोतु या धनधारणायाः वा अन्य दीर्घश्वसनं वटेवर् परन्तु तस्य प्रतिदिनम् आचरणे एव एतत् सर्वम् अन्तर्भूतः भवेत् इति उत्तमं योग्यं वीणा भगिनी रमा भगिनी जयन्तीभगिनी वदति वा वीणा भगिनी वदतु रमा भगिनी जयन्ति यदा श्रूयते वा आमां श्रूयते वदतु हा यदा मनः कलुषितं भवति चेत् तस्य परिहारार्थं किमपि न करणीयम् एव स्वयमेव शुची भवति तस्य समयः शुचीकरणार्थं समयः दत्त दत्तमेव गच्छता कालेन तस्य शुचीकरणं भवति इति गच्छता कालेन किञ्चित् तिष्ठं गच्छता अनन्तरं तस्य स्वच्छीकरणं भवेदेव इति Mm. Samayam, samayam. Samayam, samayam, uh, That, time will go. Stay. This will also... उक्तवन्तः कौण्ट् टेन् वेन् युर् आङ्ग्री पाठ्यकाले सत्यं सत्यं परन्तु तत् लाभाय एव लाभाय तत् कौण्टिङ्ग् अनन्तरं कौण्टैन् इति सत्यं सत्यं <laughs> योग्यम् अस्तु अन्य कोऽपि वक्तुम् इच्छति सर्वे उक्तवन्तः इति अहं मन्ये अन्य कोऽपि न इच्छति चेत् प्रार्थना प्रार्थना कलुषीतं मनस्व न करोति भगवान् मन सत्यं प्रार्थनायाः महत्त्वं सत्यं सत्यं योग्यं सम्यक् उत्तमं चिन्तनं सर्वेषां चिन्तने तत् नूतनाः विचाराः आगताः बहु सम्यक् बहु सम्यक् सम्यक् सम्यक् उत्तमं अस्तु अम्बिकापतिमहोदय शान्तिमन्त्रेण समापयति वा आ, आ, आ, सर्वे भवन्तु सुखिनः सर्वे सन्तु निरामयाः सर्वे भद्राणि पश्यन्तु मा कश्चित् दुःखबाद् भवेत् ॐ शान्तिशान्तिशान्तिः हरिः ओम् तत्सदे श्रीगुरुभ्यो नमः हरिः ओम् धन्यवादः धन्यवादाः सर्वेषां धन्यवादाः धन्य शुभरात्रिभरात्रिदा धन्यवादाः धन्यवादः धन्यवादः अवगच्छ धन्यवादः